बालकाण्डं सर्गं टु पार्वत्युवाच धन्यास्मि अनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो विच्छिन्नो मेदिसन्देहग्रन्थिर्भवदनुग्रहाद् त्वन्मुखागलिदं रामतत्त्वामृतरसायनं पिबन्द्या मे मनो देव न तृप्यधिभवापहम् श्रीरामस्य कथात्वत्तः श्रुता सङ्क्षेपतो मया इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरं श्रीमहादेव उवाच शृणुदेवी प्रवक्ष्यामि गुख्यतरं महद अध्यात्मरामचरितम् रामेणोक्तं पुरा ममा तदद्य कथयिष्यामि शृणुतापत्रयापहं यच्छ्रुत्वा मुच्यते जन्तुरज्ञानोद्धमहाभयाद प्राप्नोति परमामृद्धिं दीर्घायुः पुत्रसन्ततिम् भूमिर्भारेण मग्ना दशवदनमुखाशशरक्षोगणानां धृत्वा गोरूपमादौ दिविजमुनिजनैः साकमब्जासनस्य गत्वा लोकं रुदन्ती व्यसनमुपगतं ब्रह्मणे प्राह सर्वं ब्रह्मा ध्यात्वा मुहूर्तम् सकलमपि हृदा वेदशेषात्मकत्वात् तस्मात्क्षीरसमुद्रतीरमगमद्ब्रह्मादेवैर्वृतो देव्या चाखिलोकहृत्स्थमजरं सर्वज्ञमीशं हरिमस्तौ शीच्छ्रुदि सिद्धनिर्मलपदाै स्तोत्राः पुराणोद्भवैः क्रिया गद्गदया गिरादे गिरादिविमलैरानन्दबाष्पैर्वृतः तदस्फुरत्सहस्रांशुसहस्रसदृश्यप्रभः आविरासीद्धरिप्राच्यां दिशां व्यपनयन्तमः कथञ्चिद् दृष्टवान् ब्रह्मा दुर्दर्शमता इंद्रनील प्रदीकाश्यम स्म पद्मोचन किरिट कारकेयूरकुंडलह कटका विभ्रजम श्रीवत्स कौस्तुभ प्रभयान्वित स्तुवद्भिशन काेष्टिद शङ्खचक्रगदापद्मवनमाला विराजितं स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च श्रिया भूम्याजसहितं गरुडोपरिसंस्थितं हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे ब्रह्मोवाच नतोऽस्मि ते पदं देवप्राणबुद्धीन्द्रियात्मभिः यच्चिन्त्यदे कर्म पाश्चाद्धृति नित्यं मुमुक्षुभिः मायया गुणमय्या त्वं सृजस्यवसि लुम्बसि जगत्ते न देलेप आनन्दानुभवात्मनः दुष्टानाम् दानाध्ययनकर्मभिः शुद्धात्मदादे यशसि सदा भक्तिमतां यथा अधस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये सद्योन्तर्हृदये नित्यं मुनिभिः सत्त्वतैर्वृतः ब्रह्माद्यै स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदि भावितः तवाङ्कृ पूजा निर्माल्यतुलसीमालया विभो स्पर्धदेवक्षसि पदं लब्ध्वापि श्रीसपत्निवद अधस्त्वत्पादभक्ेषु तव भक्ति श्रियोऽधिका भक्तिमेवाभिवाञ्चन्दित्वद्भक्तास्सारवेदिनः अधस्त्वत्पादकमले भक्तिरेव सदास्तु मे संसारामयतप्तानां भेषजम् भक्तिरेव ते यदि ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः किं करोमीदि तं वेद्धा प्रत्युवाचादिहर्षितः भगवन् रावणो नाम पौलस्त्यतनयो महान् वरदर्पितः त्रिलोकीं लोकपालांश्च बाधते विश्वबाधकः मानुषेण मृदिस्तस्य मया कल्याणकल्पिता अतस्त्वं मानुषो भूत्वा जहि देवरिपुं प्रभो श्रीभगवानुवाच कश्यपस्य वरो दत्तस्तपसा याचितपुत्रभावाय तदेत्यङ्गीकृतं मया स इदानीं दशरथो भूत्वा तिष्ठति भूतले तस्या कं पुत्रतामेत्य कौसल्यायां शुभे दिने चतुर्थात्मानमेवाहं सृजामीतरयोः पृथक् योगमायापि सीतेति जनकस्य गृहे तदा उत्पत्स्यदे तया सार्थं सर्वं सम्पादयाम्यहम् इत्युक्त्वान्तर्दधे विष्णोर्ब्रह्मा देवानधा ब्रवीद ब्रह्मोवाच विष्णोर्मानुषरूपेण भविष्यति रखोकुले। यूयं सृजध्वं सर्वेपि वानरेष्वांशसम्भवान् विष्णोः सहायं कुरुत यावस्थास्यदिभूतले इति देवान् समादिश्य समाश्वास्य च मेदिनीं ययौ ब्रह्मास्वभवनं विज्वरः देवाश्च सर्वे हरिरूपधारिणस्थितास्सहायार्थमितस्तदो हरेः महाबलाः पर्वतवृक्षयोधिनः प्रदीक्षमाना भगवन्तमीश्वरम् इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे द्वितीयः सर्गः ओ